श्रीहरये नमः अत एकदशोऽध्यायः श्रीभगवानुयाच बद्धोमुत्तयिति व्याख्यां गुणतोमेन वस्तुतः गुणस्य मायामूलत्वान्न मे मेषो न बन्धनम् घौ सुखं दुःखं देहापत्तिश्च मायया स्वप्नो यथात्मनख्याते संश्रुतिर्न तु वास्तवी विद्याविद्ये मम तनो विद्युद्धवशरीरिणां मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते एकस्यैव ममांसस्य जीवस्यैव महामते बन्तोष्या विद्यया नादेर्वया च तेतरः अथ मुक्तस्य वैलक्षण्यं वदामि ते वृद्धधर्मिणोस्ताथ स्थितयो एकधर्मिणी सुपर्णा वेतौ सदृशौ यदृश्च यैतौ कृतनीढौ च वृक्षे एकस्तयो का दधि पिप्पलान्नम् अन्यो निरन्नोऽपि बलेन पूयान् आत्मानमन्यं च सवेद विद्वान् अपिपलाधो न विद्वान, तु पिप्पलादः यो विद्यया युक्सतु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः देहस्थोऽपि नस्तेगस्थो विद्वान् स्वप्नात्यतो अदेहस्थोऽपि देहस्थ कुमतिः स्वप्नम् दृग्यथा इन्द्रिय इन्द्रियार्थेषु गुणरैपि गुणेषु च गृह्यमाणेष्व कं कुर्यान्न विद्वान् यस्त्वविक्रियः दैवतीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा वर्तमानो भूतस्तत्र कर्तास्मीतिनिबध्यते एवं विरक्तशयने आसनाटनमज्जने दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु न तता भर्धयते विद्वांस्तत्र तत्राधयन गुणान् प्रकृतिस्तोप्य संसक्तो यताकं कंसवितानिलहा वैशारद्यक्षया सङ्गन् सितया छिह्नसंशयः प्रतिबुद्धयिव स्वप्नान् नानात्वात् विनिवर्तते यस्य शुर्वीतसङ्कल्पान् प्राणेन्द्रियमनोधियान् प्रत्यस्स तेघस्थोऽपि हि तद्गुणैः यस्यात्मा हिंशयते हिंश्रैर्येण किञ्चित् यतृश्चया अर्च्यते वा क्वचित्तत्र क्रियते बुधः नस्तु वीतननिन्देत कुर्वतः साध्वसाधु वां वतदो गुणदोषाभ्यां वर्जितः न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा आत्मा रामो न या वृत्या न निष्णायात् परे श्रमस्तस्य श्रमपलोह्य धेनुमिव रक्षतः कां दुःखदोहामसतीं च भार्यां देहं परादीनमसत्प्रजां च त्वदीर्ति कृतमङ्गवाचं हीनां मया रक्षति दुःखदुःखी यस्यां न मे पावनमङ्गकर्म लीलावतारेऽपि सितजन्म वा स्यात् वन्द्याङ्गिरं तां एवं जिज्ञासया अपोह्यन् नानात्वभ्रममात्मनि उपारमेतविरजं मनो मय्यर्प्य सर्वघें यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलं मयि सर्वाणि कर्माणि निरपेक्षः समाचर श्रद्धालुर्मे कथा शृण्वन् सुभद्रालोकपावनीः गायन्ननुस्मरन् कर्म जन्म चाभिनयन्मुहुः मदर्ते धर्मकामार्थान् आचरन् मदभाश्रयः लभधे निश्चलां भक्तिं मय्युद्धवसनातने सत्सङ्गलब्धया भक्त्या मयि मांस उपासिता स वै मे दर्शितं षद्भि अञ्जसा विन्दते पदम् उद्धवो उवाच सा तुस्तवोत्तमश्लोकमथ गीतृग्विधप्रभो भक्तिस्त्वय्युपयुज्येत गीतृशेषद्भिरादृता ये तन्मे पुरुषाध्यक्ष लोगाध्यक्ष जगत्प्रभो प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यक्तां ब्रह्म ब्रह्मपरमं व्योम पुरुषः प्रकृते परः अवतीर्णोऽसि भगवन् स्वेच्छोपात्त पृथग् वपुः श्रीभगवानुवाच कृपाणु अकृधत्रोग स्थितिषुः सर्वदेहिनां सत्यसारो न वध्यात्मा कामै अखततीर्धान्तो मृतुः शुचि अकिञ्चनः अनीको अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः अमानीमानतः कल्पो मयि प्रकारुणिककविः आज्ञायैवं गुणान् दोषान् मया दिष्ठानपि स्वकान् धर्मान् सत्यज्य यः सर्वान् सत्तमः ज्ञात्वा ज्ञात्वा तये वै मां यावान्यश्चास्मि यादृशः भजन्ति अनन्यभावेन ते मे भक्ततमामताः मल्लिङ्गमद्भक्तजन दर्शनस्पर्शनार्चनं परिचर्यास्तुतिप्रह्वन् गुणकर्मानुकीर्तनं मत्कथाश्रवणे श्रद्धा मदनुद्यानमुद्धव सर्वलाभोपहरणं धास्येन आत्मनिवेतनं मज्जन्मकर्मकथनं मम पर्वानुमोदनं गीतताण्डववादित्र गोष्ठिभिर्मद्गृहोत्सवैः यात्राबलिविधानं च सर्ववार्षिकपर्वसु वैदिकी दी तान्त्रिकी दीक्षां मधीयव्रतधारणं ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः उद्यानोपवना पुरमन्दिरकर्मणि सम्मार्जनवपले पाभ्यां शेखमण्डलवर्धनैः गृहश्रोषणं मह्यं दासवत्यधमायया अमानित्वमधम्भित्वं कृतस्यापरिकीर्तनम् अपि दीपावलोकं मे नोपयुञ्जा निवेदितं यद्यदिष्टधमं लोके यच्छातिप्रियमात्मनः तत्तन्निवेदयन् मह्यं तथा नत्याय कल्पते सूर्योऽग्निर्भ्राह्मकणो गावो वैष्णवः कम् भूरात्मा सर्वभूतानि भद्रपूजा पदानि मे सूर्ये तु यजेतमा आदित्येन्तु विप्रार्गेम् गोष्वङ्गयवसादिना वैष्णवे बन्तु सत्कृत्या हृदि के ध्याननिष्ठया वायौ मुग्धियातोय द्रव्यै स्तोय पुरस्कृतै स्तण्डिले मन्त्रहृदयैर्भोगै आत्मानम् आत्मनी, क्षेत्रज्ञं सर्वभूतेशो, समत्वेनय यजेत मा दिश्येश्येष्वितिमद्रूपं शङ्खचक्रगदाम्बुजैः युक्तं चतुर्भुजं शान्तं ध्यायन् अर्चेत् समाहितः इष्टापूर्तेन मामेवं यो यजेत समाहितः लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धवा नोपायो विद्यते सद्रं प्रयाणं हि सदामघं अतैतत्परमं गुह्यं शुण्पथो यधुनन्दन सुगोप्यमपि वक्ष्यामि त्वम्मे मे भ्रत्यः सुहृत्सखा इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते एकादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनाथमहराज की जय